पादारविन्दशतकम् महिं न पन्धानं मदनपरिपन्धिप्रणयिनी प्रभोर्नैर्णेतुं ते भवति यतमानोऽपि कदमः तथाभिश्रीकाञ्ची विहृतिरसिके कोऽपि मनसो विभागस्त्वत्पात स्तुतिवितिषु जल्पाकयति मां गलग्राही पौरन्तरपुरवनी पल्लवरुषां धृतप्राधं यानाम् अरुणमगसामादिमगुरुः सबिन्दे बन्धुघ स्तबकसकयुद्वादिशि दिशि प्रसर्पन् कामाक्ष्या चरणकिरणानामरुणिमा मरालीनां यान व्यसनकलनामूलगुरवे दरिद्राणां त्राण व्यधिकासुरोद्यानतरवे तमस्काण्ढप्रौढी प्रकटनतिरस्कारपटवे जनोऽयं कामाक्ष्या चरणनलिनाय स्पृहयथे वहन्दी सैन्धूरीं शरणिमवनं रामरपुरी पुरन्द्रीसीमन्ते कविकमलभालार्गशुषमा त्रयी सीमन्तिन्या स्तनगतटनिशोलारुणपटी विभान्ति कामाक्ष पदनलिनकान्तिर्विजयते प्रणम्रीबुधस्य प्रणयकलहत्रस्तमनसः स्मरारेतः सूढ वियति गृहमेति हि मकरः ययोसान्ध्यां कान्तिं वहति सुषमाभिश्चरणयोः स्तयोर्मे हृदयमपतन्त्रं विहरत ययो ययो सौधायन्ते, योपीटाते विभुत मुकुटीना पटलि योसौधा स्वयुदयजोपणतोदिजवाद्याचरण तयोर्मे कामाक्ष मनोवरीवर्तुहृदयं नयन्ती शङ्कोचं सरसि चरुचं दिक्परिसरे सृजन्ति लौहित्यं नख किरणसन्द्रार्धकचित हवीन्द्राणां पुरन्त्री कामाक्ष्या संध्या विजयते विरावैर्माञ्जीरै किमपि कथयन्तीव मधुरं पुरस्तानां रे पुरविजयिनी स्मेरवतने वयस्येव प्रौढा शिथिलयदिया प्रेमकलहा प्ररोहं कामाक्ष्या चरणयुगली सा विजयते सुपर्वस्त्री लोला लगपरिचितं षट्पदकुलैः स्फुरल्लाक्षाराघं तरुणतरणी ज्योतिररुणैर्भृतं तान्त्यं भोभिः विश्रुमरमरुन्धैसरसिजैः विदधे कामाक्ष्या चरणयुगलं बन्धुपदवीं रजः संसेर्घेऽपि स्थितमरजसामेव हृदये परं रक्तत्वेन स्थितमपि विरक्तैकचरणम् अलभ्यं मन्धानां दददभिसतामन्तघतिता चरणयुगमाश्चर्यलहरीं जटाला माञ्जीरस् पुरतरुणरत्नां सुनिकरैः निशीतन्ती मध्ये न करुषि जरी गाङ्गपयसा जगत्राणां कर्तुं मम जननिकामाक्षि तपश्चर्यां तत् ते तव चरणपादो जयुगली तुलाकोटिद्वन्त्व क्वणितभणिता भीतिवचसोः विनं कामाक्षी विश्वमरमः पाटलितयोः क्षणं विन्यासेन क्षपिततमसोर्मेललितयोः पुनीयान्मूर्धानम् पुरहरपुरन्द्रीचरणयोः भवानी दृह्येताम्भव निबीडितेभ्यो मम मुहु तमो व्यामोहेभ्यस्तव जननि कामाक्षिचरणौ ययोर्लाक्षाबिन्दुस्पुरण धरणाद्दूर्जटि जट कुटीराशोणाङ्कं वहति व पुरेणाङ्गकलिका पवेत्रे कुर्युन्न पदतलभुवपाटलरुचः प्रघास्तेपाभव्रचमनदुरीणा परशिवे कणं लब्धुं येषां निजशिरसि कामाक्षि विवशा वलन्तो व्यातन्वन् व्यहमहमिकां मातवमुखः लाकामालाभिर्नगरुचिमयीभिपरिवृते विनम्रस्वर् नारी विकषकषकालाम्बुदकुले स्फुरन्तः कामाक्षी स्फुटतलितबन्धुघ सुहृतः तटिल्लेखायन्ते तव चरणपादोजकिरणाः सरागत सत्त्वेष प्रसुरुमरसरोजे प्रतिदिनं निसर्गाताक्रामन् विपुतजनमूर्तानमधिकम् कथङ्कारं मात कथयपदपद्मस्तवसतां नतानां कामाक्षीं प्रकटयति कैवल्यशरणि जपालक्ष्मीशो नो जनितपरमज्ञाननलिनी विकासव्यासङ्घो विपलितजगज्जाड्यगरिभां मनः पूर्वाद्रिं मे तिलकयतु कामाक्षि तरसा तमस्काण्ठद्रोही तव चरणपादोजरमणः नमस्कुर्म प्रेङ्गन् मणिकटकनीलोत्पलमहः पयोदौरिङ्गद्भिः नगकिरणपेनैर्धवलिते स्फुटं कुर्वाणाय प्रबलचलदौर्वाणलशिका वितर्कं कामाक्षा कम सततमरुणि ने चरणो चाएता अलगुतमकूपकुरे दिना दीशाएता मन हृदय पादो जिने नभोसाएता सरिति सरीतीदीय काम प्रसृतकिरणौ देवि चरणौ निषक्तं श्रुत्यन्ते नयनमिव सद्वृत्तरुचिरैः समैर्जुष्टं श्रुत्यै रतरमिव रम्यैर्द्विजगणैः शिवे वक्षो जन्म कामाक्षि प्रणदचरणं नौमि चरणम् सज्जन् नमुषिपरिपन्ति परिपन्ति प्रणयिनी निसर्गप्रङ्कोल कुरलकुलकालाहि शपले वैध्रुमरुचाम् प्रसारं कामाक्षी प्रशुरयति पादाक्ष सुषमा कदा दूरीकर्तुं कटुधुरितकाकोलजनितं कर्तु महान्तं सन्तापं मदनपरिपन्धिप्रियतमे क्षणान्ते कामाक्षी त्रिभुवनपरीतापहरणे पटीयां संलप्स्ये पदकमलसेवामृतरसं ययो सान्त्यं रोषी सततमरिणीं ययो ययोशान्द्रीकान्ति परिपतते दृष्ट्वा नकरुचिं ययोपा गोत्रेकं पिपटिषति भक्त्या किसलयम् मृदिन्द कामाक्ष्या मनसि चरणौ तौ तनुमहे जगन्नेतं नीतं परमिति परिद्यज्य यदिभि कुशाग्रीयस्वान्तै कुशलदिशनैः शास्त्रचरणौ गवेष्यं कामाक्षे ध्रुवमकृतकानं गिरिसुते गिरामै तं विजयते कृतस्नानं शास्त्रामृतसरसि कामाक्षि तदानं वैशध्यं कलितरसमानन्तसुधयाम् अलङ्कारं भूमे मुनिजनमनश्चिन्मयमः पयोद्धेरन्तस्थं तव चरणरत्नं मृगयते मनोगे तिमिरपूर्णे मम मुहुः दरिद्राणि कुर्वन् दिनकरसहस्राणि किरणैः विदग्धं कामाक्षीं प्रसृमरतमो वञ्चनक्षणः क्षणार्धं सान्निध्यं चरणमणिदीपोजननिते कवीनां चेदावन् नगररुचिसम्पर्कि विबुधा परन्ती श्रोतोवन् पटुमुकरितं हंसकरभैः दिनारम्भश्रीवन् नियतमरुणच्छायसुभगं मतन्तकामाक्ष्या स्फुरदुपतपङ्केरुहयुगं सदा किं सम्पर्कात् प्रकृतिकठिनैनाहिमकुटैः तटैनीकाराद्रे अधिकमणुना योगिमनसा विबिन्दे सम्मोहं शिशिरयति भक्तानविदृशा अदृश्यं कामाक्षी प्रकटयति ते पादयुगलम् पवित्राभ्यामम्भा प्रकृतिमृदुलाभ्यां तव शिवे पदाभ्यां कामाक्षी प्रसभमपि भूतैः सशकितैः प्रवालैरम्भोजैरपि शवनवासव्रदतशः सदैरभ्यचरनाजगण शिरादृश्या हंस कथमी सदा हंसुभम निरश्यी जाट्यम चरणं अदोक्षव्या सततमपि दोषाप्तिमलिनम् पयोजम् कामाक्ष्या परिहसति पादाब्जयुकली सुराणामानन्द प्रबलनतया मण्डनतया न केन्दुज्योत्स्नाभि विसृमरदमखण्डधनया पयोज्रीवेष व्रतरतया त्वः शरणयोः विलासः कामाक्षी प्रकटयति नैशाकरदशां सितिं न कान्तिनां नकरजनुषां पादनलिन चवीनां शोणिं न तव जननि कामाक्षि न मनी लभन्ते कृदितनवबन्धुककुसुमा प्रजांसामीशीयं सुरपुरपुरन्द्रीकच्छभराः स्फुरन्मध्ये शुद्धे न क किरणदुप्ताब्धिपयसा नब्जं चक्रं धरमपि रूपम् श्रियमपि ददो नो नृपमा त्रधामा कामाक्ष्या पदनलिननामा विजयते गष्टी सन्नद्ध सपकनिशितस्वै सकिरणैः पिशङ्घैः कामाक्षी प्रकटितलसत्पल्लवरुचिः सदां गम्य शङ्के सकलबलताताता सुरतरु त्वदीयपाधोऽयं तुन गिरिराजन्यतनये षट् कुर्वन् मांझी रजकलकलैकर्मलहरी हवीं शीप्रोद्दण्ढम् ज्वलदि परमज्ञानदहने महीयान् कामाक्षी स्फुटमहसि जोहोतिसुधिया मनोवेद्यामातस्तव चरणयज्वा गिरिसुते महामन्त्रम् किञ्चिन् मणिकटकनाथैर्मृतु जपन् शिबन्धि सूक्ष्मच्छम् नगरुषिमयम्बास्मनरजाः नदानाम् कामाक्षी प्रकृतिपटुरुच्चाट्यमममता पिशाशीं पातोऽयं प्रकटयति ते मान्त्रिकदशा उदीते बोधेन्धौ तमसि नितरां जग्मुषि दशा दरिद्रां कामाक्षीं प्रकटमनुरागं न करुषिपडेनाङ्ग्रियुगली पुरन् प्रीते माथ स्वयमपि सरत्येव हृदयं दिनारम्भः सम्पन्नलिनविपिनानामपि नवो विकाशो वासन्त सुकविपि कलोकस्य नियतः प्रदोषकामाक्षी प्रकटपरमज्ञानशिनः शकास्ति त्वत्पाद स्मरणमहिमा चैलतनये तच्चायं नित्यम् सरसिरुहमैत्रीपरिषितं निदानं दीप्तिनां दीप्तीनां निखिलजगदाम्बोधजनकं मुमुक्षूणां मार्गं प्रदनपटुकामाक्षिपदवीं पदं ते पातङ्कीं परिकलयते पर्वतसुते चनैः तीर्त्वा मोहाम् बुदिमदस मनसहा क्र कल्याख्या सुकृति सुलभांस लबंदेश्रेणी झटती काम चरण पुशास्तेमदन सीमति प्रचंडातीक्षोभ तिसरी प्रवाह प्रोदंडी कर्ण जलदाणमता प्रदीपय प्रौढ़िचरण प्रसाद्याय स्पृयति जनोय जननिते मरोदी सेव्या सततमपि साञ्चल्यरहिता सदारुण्यं यान्ति परिणदि दरिद्राणसुषमा गुणोत्कर्षात्मञ्जीरजकलकलैतर्जनपटु प्रवालं कामाक्ष्या परिहसदि पादाब्जयुगली जगत्त्रक्षाधक्षा जलजरुषि शिक्षा पटुतरा सुरैर्न्या रम्या सततमभिगम्या बुधजनैः त्वयि लीलावोला श्रुतिषु तटीसीमाधामा तव जयति कामाक्षिपदयोः गिरां दूरौ चोरौ जटिमतिमिराणां कृतजगत् पवित्राणैनक्षोणौ मुनिकृदयलीलैकनिपुणौ न कैस्मेरौ सारौ निगमवचसां कण्ठितभव ग्रहोन्माधौ पाधौ तव जननि कामाक्षि कलये अविश्रान्तं पङ्कं यतिपि कलयन् यावकमयं निरश्चन् कामाक्षि प्रणमनजुषां पङ्कमखिलं तुलाकोडिद्वन्द्वं ददतपिश न् अतुलतां गिरां पाधो गिरिवरसुधे लङ्घयति ते प्रवालं सौरीडं विपिनविवरे वेपयति या स्फुरल्लीलं भाला तपमदिगपालं वदितया रुचिं सान्ध्यां वन्ध्यां विरचयति या शिवं मे कामाक्षा पतनलिनपाटल्यलहरी किरण नकमुकरुचाहं नकमुखरुचाहंसमनसा वितन्वान् प्रीतिं विकशतरुणां भोरुखरुचिः प्रकाशश्रीपातस्तव जननिकामाक्षितते शरत्कालप्रौढीं सशिशकलशूटप्रियतमे नकाङ्कुरस्मेर द्युतिवितति गङ्गाभसि सुखं कृतस्नानं यानामृतमलमास्वात्यनियदम् उदञ्चन्मञ्जीर स्फुरणमणिदीपे मम मने मनोज्ञे कामाक्षा चरणमणिहर्म्ये विहरताम् भवां बोधौ नौका जडिम विपिनेवकशिका अमर्द्य दीना मुकुटम बुद्धम सकलिका, जगत्तापे पे अकृतकवच अकतकवच पुुटे शुकस्त्री काम मनसी कलए पादयु परात्मप्राकाश्य प्रतिफलनचञ्चुप्रणमता मनोज्ञत्वत्पातु मणिमुकुरमुद्रां कलयते यदीयां कामाक्षी प्रकृतिमशृणा चोदकदशा विधातुं चेष्टन्ते फलरिपुवधूटीकचपराः अविश्रान्तं तिष्ठन् अकृतकवचकन्तरपुटी कुटीरान्तप्रौढं न करुषि सतालीं प्रकटयन् अचण्टं कण्टत्वं नयतु मम कामाक्षि तरसा तव चरणकण्टीरवपथी पुरस्तात्कामाक्षी प्रसुरररसमाकण्डलपुरी पुरीन्द्रीणां लास्यं तव ललितमालोक्यसनकैः नखश्रीभिस्मेरा बहुवितनुतेनूपुरवैः समकृत्यासङ्खे चरणयुगली चाडुरचनाः सरोजं विन्ती नखकिरणकर्पूरसिशिरा निषिक्ता मार मुकुटसशिरे काहिमजलैः स्फुरन्ती का स्फुटरुचिमये पल्लवचये तवा मैत्री पथिकसुदृशापातयुगली नतानां सम्पत्ते अनवरतमाकर्षणजपः प्ररोखत् संसार प्रसागरिमस्तम्भनजपः त्वदीयकामाक्षी स्मरहरमनोमोहनजपः पटीयान्तपयत् पतनलिनमञ्जीरनि नथः वितन्विधानादे मम शिरसि पदा भोजन संसम पशि परभ प्राणदयिथ बिबंदो यमूत्रो प्रकट मुपकंपरिस दृशानानन्द्यन्ते नलिनभवनारायणमुखः प्रणामोऽद्यन्दारक मुकुटमन्तारकलिका विलोलल्लोलम्ब प्रकरमय धूमप्रसुरिमा प्रदीप्तपादाब्ज द्युदिवितति पाठल्यलहरी कृसानुकामाक्ष्या ममतः तु संसारविपिनं वलक्षश्रीरुक्षाधिभ शिशुशत्रुषैस्तवनकैः जुक्रुषैतक्षत्वं सरसिरुकभिक्षुत्वकरणे का क्षणान्मी कामाक्षी शपित भव क्षोभगरिमा वसो वैशक्षण्यं चरणयुगलीपक्ष्मलयत समन्तात् कामाक्षी शक्तिमिरसन्तानसुभगान् अनन्ताभिर्भाभिनो दिगन्तान् विरशयन् अहन्ताया हन्ता मम झटिमतन्तावलहरीः विपिन्तान् सन्तापं तव चरणचिन्तामणिरसोः तधानो भास्वत्ताम अमृतनिलयो लोहि विनम्राणां सौम्यो गुरुरपि कवे त्वं गदौ मन्तो गङ्गाधर महिषि कामाक्षि भजता तमकेतुर्माथ तव चरणपद्मो विजयते नयन्तीं वासत्वं नळिनभवमुख्यानसुलभा प्रधानाधीनानाम् अमरतरुदौर्भाग्यजननी जगज्जन्मक्षेम क्षयवितिषु कामाक्षिपधयोः दुरीणामीष्टेकस्तव पणितमाहो पुरुषिका जनोयं सन्तप् जननि भवचण्डां सुकिरणैः अलब्द्वैकम् सीतम् कणमपि परज्ञानपयसः तमो मार्गे पान्तस्तव झटिति चायम् परमशिवजाये मृगयते जगद्यम्ब श्रीमन् न करणशीनाम् शुकमयम् वितानम् विप्राणे सुरमकोडसङ्घट्टमशृणे निजारुण्यक्षौमास् कामि सुलभा बुध संविदारी तव चरण मणिक्यव प्रतीम काम स्फुतरुणाधि शिमूल्रव्यम तव चरणम्रींद्रतन सुरेन्द्रा सा मा पूरयति दुनीते दिक्भाकान् अपि च महसा पातलयते महाभाष्यव्याख्या पटुशयनमारोपयति वा स्मरव्यापारेष्या पिशुननिठिलं ध्यासयति सतत व निवसी प्रणम्राक्ष पदनलिनत्म्य घरिमा विवेकांब्रोत समी भूते शास्त्र स्मरणहलशङ्कर्षणवचा सताम् चेतक्षेत्रे भवति तव कामाक्षिचरणो महासंवित्सस्य प्रकरवरबीजङ्गिरिसुते तधानो मन्धार तपकपरिपाटीम् न खरु च वहन्दीप्ता शोणानङ्कुले भिरपि साम्पेयकलिका अशोकोल्लासं न समय इव ते सर्वदयिते न प्रसृमरमरालालिमहित स्फुरन्मञ्जीरोद्यन् मरकतमहश्चैवलयुत भवत्या कामाक्षी पुटचरणपाटल्यकपटः नतः नकपदि तनूजे विजयते दुनानं पङ्कौघम् परमसुलभं कण्टककुलैः विकासव्यासङ्घं विदधदपरादीनमनिशम् नगेन्दुज्योत्स्नाभि विशदऋषिकामाक्षि नितरा असामान्यम् मन्ये ते बदयु करीन्द्राय दृह्यति अलसघति लीलासु विमलैः पयोजैमात्सर्यम् प्रकटयति कामम् कलयते पदाम्बोध द्वन्द्वम् तव तदभिकामाक्षि हृदयम् मुनीनाम् सान्तानाम् कथमनि समस्मै स्पृहयते निरस्ताशो निम्ना चरणकिरणानां तव शिवे समिन्ताना सन्ध्या रुचिरचलराजन्यतनये असामर्ध्यतेनं परिभवितुमेतत्समरुचां सरोजानां जाने मुकुलयति शोपां प्रतिदिनम् उपादिक्षाक्ष्यम् तव चरणनाम गुरुरसौ मरालानाम् शङ्खे मश्रुणगतिलालित्यशरणो अतस्त ते निस्तन्त्रं नियतममुनासक्यपदवीं प्रपन्नं पादोजम् प्रतिदधति कामाक्षि कुतुकम् तदा नै संसर्गम् प्रकृतिमलिनक्षट्पदकुलैः द्विजातीश्लाका विदिशो वेद विविमुकुलतां रजो मिश्रैपद्मै नियतमपि कामाक्षिपधयो विरोधस्ते योक्तो विषमचरवैरीप्रियतमे श्रीमिश्रीकरण निपुणौ रक्षणचणो विपन्नानां श्रीमन् नलिनमशृणौ शोणकिरणौ मुनीन्द्राणामन्थकरण चरणसौमन्तशरणौ मनोज्ञौ कामाक्ष दुरितहरणौ नौमि शरणौ परस्मात् सर्वस्मादपि च रयोः नगश्री श्रीपेज्योत्स्ना कलिततुलयो ताम्रतलयोः निलीये कामाक्ष्या निगमनुतयो नाकिनतयोः निरस्तप्रोन्मीलन्नलिनमदयो रेवपदयोः स्वभावाधन्योन्यम् किशलयमभीतं तव पधम् मृतिं नाशोनिम्ना भगवदि ददाते वने पूर्वस्ये च सदतमवने किं तु जगत परस्येदम् भेध स्फुरति हृते कामाक्षि सुधिया कथं वाचालोऽपि प्रकटमणिमञ्जीरनि न दैः सदैवानन्दार्द्रान् विरचयति वा संयमजनान् प्रकृत्या ते शोणच्च विरपि च कामाक्षिशरणो मणीषानैर्मल्यम् दृष्णावीशि परिचलनपर्याकुलतया मुखीर्भ्रान्तस्तान्त परमशिव वामाक्षि परवान् तिथीर्षु कामाक्षि प्रसुरतरकर्माम्बुदिममुं कदा कं लप्स्येते चरणमणिसेतुं गिरिसुते विशोष्यन्द्यां प्रज्ञां सरिति दुरितग्रीष्मसमय प्रभावेण क्षीणे सति ममके निशुषा तदीय काम्क्षी स्फुरीचरणा बोधमहिमा न भोम साडोपम गति किन नलबीसें चरण दीबे प्राश्यम दधति तव निर्दूततमसी असी बा कामाक्षी स्वयमलकुतुष्कर्मलहरीं विगोर्नन्दी शान्तिं चलबपरिपाटीव भजते विराजन्ति सुप्तेर्नगकिरणमुक्तामणितते विभत्पाधोराशौ तरिरपि नराणां प्रणमतां त्वदीय भववने ध्रुवमलघुवत्ने भवने मुनीनां ज्ञानाग्ने अरणिरयमङ्घ्रिर्विजयते सततमपि कामाक्षि सुतो गन्धर्वस्त्री सुललितविपञ्चीकलरवैः भवद्याभिन्धानो भवगिरिकुलं जृम्बिततमोहो बलत्रोही हि मातः विजयते वसन्तं भक्तानामपि मनसि त्यं परिलसत् घनच्छायापूर्णम् न तापसमनं न केन्दुज्जोत्स्नानाभिम् शिशिरमपि पद्मोदयकरम् न मामकामाक्ष्यास् चरणमधिकाश्चर्यकरणम् कवीन्द्राणां ीकृतवचः प्रपञ्चव्यापार प्रकटनकला कौशलविधिः अधः कुर्वन्नब्जम् सनकभृगुमुख्यैर्मुनिजनैः नमस्य कामाक्ष्या चरणपरमेष्टि विजयते पत्या कामाक्षी पुरिदपदपङ्केरुहाभुवा पराघाणां पूरै परिहृदकलङ्गव्यधिकरैः नता नामामृष्टे हृदयमुकुरे निर्मलरुचि प्रसनने निःशेषम् प्रतिपलति विश्वं गिरिसुते तवत्रास्तम् पाधात् परम् रेखारूपम् कमलममुमेवाश्रितमभूत् जितानां कामाक्षी द्वितयमपि युक्तम् परिभवे विदेशे वा शो चरणगमनं वा निर्जरिपोः निगमवच सान्देशिककृपा कटाक्षार्कज्योतिशमितममताभन्तधमसहा यतन्ते कामाक्षी प्रतिदिवसमन्त्रद्रडयितुं त्वदीयम् पादाब्जं सुकृतपरिपाकेन सुजनाः जडानामभ्यम्भ स्मरणशमये त्वच्चरणयोः भ्रमन्मन्तक्ष्मा भृद्रो मोहोमेतसिन्धुप्रतिभटाः प्रसन्धा कामाक्षी प्रसभमतरस्पन्तनकरा भवन्ति स्वच्छन्तम् प्रकृतिपरिपक्वा मधुरनिनदं हंसकमसौ तमेवाधः कर्तुं किमिव यतते केलिगमने भवस्यैवानन्दं विदधदपि कामाक्षिचरणो भवत्यास्तत्रोऽहं भगवति किमेवं वितनुते यदत्यन्तं ताम्य यल सखति वर्ता स्विशि तदेत प्रकृतिमृधुं ते बधयुगम कितम सुरग से सकते मुनींद्राणमास्ते मनसी चूशिशिते मनोरंगे मत्के, विबुधजनसम्मोदजननी सराघव्यासङ्घा सरसमृदुसञ्चारसुभगा मनोज्ञा कामाक्षी प्रकटयतुलास्य प्रकरणं रणन्मञ्जीरा ते चरणयुगली नर्तकवधूः परिष्कुर्वन्मात पशुपतिकभर्धम् चरणराड पराशां हृत्पद्मम् परमभणिदीनां शमकुटम् भवाग्ये पाधोधौ परिहरतु कामाक्षि ममता परादीनद्वं मे परिमुषितपादो जमहिमा प्रसूनै सम्पर्कात् अमरतरुणी कुंतलभवैहि धानात् अनिशमपि कामाक्षि न मतां स्वसङ्घातङ्केलीं प्रसवजनगत्वेन शशिवे धृता ते वार्ता सुरभिरिति पाधो महामोहस्तेन व्यधिकरभया पालयति यो विनिक्षिप्तं स्वस्मिन् मुनिजनमनोरत्नमनिशम् सरागस्योद्रेकात् सततमी कामचिरा किम पादसौ किशलयुचि शोरयधुकार विषयलहरी चालिक सस्वाश्रा हृदय जननिते सुखबूत जननीले क्षणिषि कामिबस गृह्वादाक्ष चरणयुगली पंजरपुटे धुनान काम स्मरणलवमात्रेण झटिमा ज्वर प्रौढिम् स्थितिनेगमनै गमनैकुञ्जगुहरे अलभ्यम् सर्वेषाम् गदिश न लभन्ते सुकृदिन शिरादन्विष्यन्तस्तव चरणसिन्धौषधमिधम् रणन्मञ्झीराभ्यां ललितगमनाभ्यां सुकृदिना मनोवास्तव्याभ्यां मदिदतिमिराभ्यां न करुषा निधेयाभ्यां पत्या निजशिरसि कामाक्षि सततं नमस्ते पादाभ्यां नानिलम्रदोलाभ्यां गिरिसुते सुरागे रागेन्धु दीती मुखे प्रतिमुखे पर्वतुते शिराल्ये भक्तियामधन जषधा मनोभृत्कदुग्मे जननिते, प्रकामं कामाक्षी त्रिपुरहर वामाक्षिरमताम् शिवे संविद्रूपे शशिशकलचूडप्रियतमे शनैर्गत्या गत्या, गत्या जितसुतवरे भे यधन्ते यथन्ते सन्तस्ते चरणनलिनालानयुगले सदा बद्धम् चित्त भ्रमतकरियूधम् दृढतरम् यशूते मात मधुरकविताम् पश्मलयते श्रियं दत्ते चित्ते कमपि प्रदयते सदा पाशग्रन्थी शिथिलयति प्रपन्ने कामाक्षी प्रणति परिपाटी शरणयोः मनीषा माहेन्द्रि ककुभविवते कामपि प्रदत्ते कामाक्ष्या चरणतरुणातित्यकिरणैः यतिये सम्पर्के रुदरसमरन्धाकमयता परिपाकं दत्त ते परिमलवती सूक्तिनलिनी पुरा माराराति पुरमजयतम्भस्तवशतैः प्रसन्नायां यस्य त्वयि तु पदं तत्कामाक्षी स्फुरदुतरसा कालसमये समायाते माधर, मम मनसि पादाब्जयुगलम् पदद्वन्द्वं मन्दं गदिषु निवसन्तम् हृदि सताम् गिरामन्ते भ्रान्तम् कृदकरहितानां परिबृढे जनानामानन्दम् जननि जनयन्तं प्रणमताम् त्वदीयम् प्रतिदिनमहं नौमि विमलम् इदं यः कामाक्ष्या चरणनलिनस्तोत्रशतकं जपे नित्यं भक्त्या निखिलजगदालादजनकं सवित्वेषां वन्द्य सकलकविलोकैकतिलकः चिरं भुक्त्वा भोकान् परिणमति ृपकलया सर्वमङ्गलमाङ्गल्ये शिवे सर्वार्थसाधके शरण्य त्रयम्बके गौरी नारायणि नमोऽसे